शिवगीता द्वादशोऽध्यायः श्रीराम उवाच भगवन्देवदेवेश नमस्तेऽस्तु महेश्वर उपासनविधिं ब्रूहि देशं कालं च तस्य तु अङ्गानि नेमांश्चैव अनुग्रहो यदि ईश्वर उवाच शृणुराम प्रवक्ष्यामि उपासने। सर्वाकारो सर्वाकारोऽगमेवैकः सच्चिदानन्दविग्रहः पदंशेन परिच्छिन्ना देहाः सर्वदिवोकसाम् ये तु अन्यदेवता भक्ता यजन्ते सद्ययान्विताः तेऽपि मामेव राजेन्द्र यजन्ति अविधिपूर्वकम् सर्वमिदं विश्वं मत्तो न व्यतिरिच्यते सर्वक्रियाणां भोक्ताहं सर्वस्याहं फलप्रदः येनाकारेण ये मत्या उपासते तेनाकारेण तेभ्योऽहं प्रसन्नो वाञ्छितं ददे विदिना अविदिना वापि भक्त्या ये माम उपासते तेभ्यः फलम् प्रयच्छामि प्रसन्नोऽहं न संशयः अपि चेत् सुदुराचारो वचते मामनन्यवाक् साधुरेव मन्तव्यः तम्यग्व्यवसितो हि सः स्वजीवत्वेन यो वेत्ति मामैवेकम् अनन्यदीः तं न स्पृशन्ति पापानि ब्रह्मगत्यादिकान्यपि उपासाविधयस्तत्र चत्वारपरिकीर्तिताः सम्पदारोपसंवर्गाद्यासा इति मनीषिभिः अल्पस्य च अधिकत्वेन गुणयोगाद्विचिन्तनम् अनन्तं वै मनयति सम्पद्विधिरुदीरितः विदावारोप्ययोपासा सारोपरिकीर्तितः यद्वद् ओङ्कारमुद्गीतम् उपासीत इत्युदाकृतः आरोपो बुद्धिपूर्वेण य उपासाविदिच्च सः अग्निमदिर्यत्त सः स उदाहृतः क्रियायोगेन च उपासा उपासाविधिः संवर्ग उच्यते संवर्तवायुः प्रलये भूतान्येको अवसीदति उपसंगम्य बुद्ध्याय आसनं देवतात्मना तदुपासनमन्तः तद्बहिः सम्पदादयः ज्ञान अन्तर अनन्तरितसजातिज्ञानसंहतेः सम्पन्नदेवतात्मत्वम् उपासनमुदीरितम् सम्पदादिषु बाह्येषु दृढबुद्धिरुपासनम् कर्मकाले तदङ्गेषु दृष्टिमात्रमुपासनम् उपासनमिति प्रोक्तम् तदङ्गानि ब्रुवेशुणु तीर्थक्षेत्रादिगमनम् श्रद्धां तत्र परित्यजे स्वचित्तैकाग्रता यत्र तत्रासीत् सुखं द्विजः कम्बले मृदुतल्पे वा विविक्तदेशे नियतः समग्रीवशिरस्तनुः अत्याश्रमस्थः सकलान् इन्द्रियाणि निवृत्य च भक्त्या अथसोगुरुं नत्वा योगम् विद्वान् प्रयोजयेत् यस्तु अविज्ञानवान् भवति अयुक्तमनसा सदा तस्य इन्द्रियाण्यवश्यानि दुष्ट अश्वा इव सारथेः विज्ञानी यस्तु भवति युक्तेन मनसा सदा तस्य इन्द्रियाणि वश्यानि सदा यस्तु अविज्ञानवान् भवति अमनस्कः सदा अशुचिः न स तत्पदमाप्नोति संसारमधिगच्छति विज्ञानी यस्तु भवति समनस्कः सदा शुचिः स भूयो न जायते विज्ञानसारथिर्यस्तु मनः प्रग्रह एव च सो अध्वनः पारमाप्नोति ममैव परमम् पदम् हृत्पुण्डरीकम् विरजम् विशुद्धम् विशदम् तथा विशोकम् च विचिन्त्यात्र यायेन्माम् परमेश्वरम् अचिन्त्यरूपम् अव्यक्तम् अनन्तम् अमृतम् शिवम् आदिमद्यान्तर्हितम् प्रशान्तं ब्रह्मकारणम् एकं विभुं चिदानन्दम् अरूपं अजम् अद्भुतम् शुद्धस्फटिकसङ्काशम् उमादेहार्दारिणम् व्याघ्रचर्म अम्बरदरम् नीलकण्ठं त्रिलोचनम् जटादरम् चन्द्रमौळिम् नागयज्ञोपवीतिनम् व्याघ्रचर्म उत्तरीयम् च परेण्यम् अभयप्रदम् पराभ्याम् ऊर्बहस्ताभ्याम् बिभ्राणम् परशुम् मृगम् कोटिमध्यान्नसूर्याभम् चन्द्रकोटिसुशीतलम् चन्द्रसूर्याग्निनयनम्वक्त्रसरोर्हम् भूतिभूषितसर्वाङ्गम् सर्वाभरणभूषितम् एवम् आत्मारणिम् कृत्वा प्रणवम् च उत्तरारणिम् ज्ञाननिर्मतनाभ्यासात् साक्षात् पश्यति माम् जनः वेदवाक्यैरलभ्योऽहुम् न शास्त्रैर्नापि चेतसा जानेन वृणुते यो माम् सर्वदाहुं नाविरतो दुच्चरितां नाशान्तो नासमाहितः नाशान्तमानसो वापि प्रज्ञानेन लभेतमा जाग्रत्स्वप्नसुषुप्यादि प्रपञ्चो यप्रकाशते तद्ब्रह्मा अहमिति ज्ञात्वा प्रमुच्यते त्रिषु दामसु यद्बोक्यम् भोक्ता भोगच्च तज्ज्योतिर्लक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा सर्वाद्यक्षः सर्वभूतादिवासः साक्षी चेता केवलो निर्गुणश्च एको वशी सर्वभूतान्तरात्मापि एकम् बीजम् नित्यदायः करोति तम् माम् नित्यम् ये पश्यन्ति धीरा तेषाम् शान्तिः शाश्वती नेतरेषाम् अग्निर्यतैको भुवनम् प्रविष्टो रूपम् रूपम् प्रतिरूपो बभूव एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः माम् पुरुषम् महान्तम् आदित्यवर्णं तमस परस्तात् स विद्वान् अमृतोऽत्र नान्यस्तु पन्ता अयनाय विद्यते किरण्यगर्भं विदधामि पूर्वम् वेदां च तस्मै प्रहिणोमि योऽहम् तां देवमीड्यम् पुरुषम् पुराणम् निश्चित्य माम् प्रमुच्यते एवं शान्त्यादियुक्तः सन् वेत्ति मां तत्त्वतस्तु यः निर्मुक्तदुःखः सन्तानः सोऽन्ते मय्येव लीयते इति श्रीपद्मपुराणे शिवगीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे शिवराघव संवादनाज्ञानलम नाम द्वादोध्याय